हरि श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामणे युद्धकाण्डे द्वितीय सर्गः सुग्रीवेण श्रीरामस्य प्रोत्साहनम् सन्तोषकपरिद्योनम् रामम् दशरथात्मजम् उवाच वचनं श्रीमान् सुग्रीव शोकनाशनम् किं त्वया तप्यते वीर यथा न प्राकृतस्तथा नैवम्भूत्य च सन्तापम् कृतघ्न इव सौरुधम् सन्तापस्य च ते स्थानम् न हि पश्यामि राघवे प्रवृत्ता उपलब्धायाम् ज्ञाते च निलये रिपोः मति भान् शास्त्रविद्वान्य पण्डिते चाप्सि राघवे त्यजेमाम् प्राकृताम् बुद्धिम् कृतात्मैवार्थदूषिणीम् समुद्रम् लङ्घयित्वा तु बहनक्रे समकुलम् लङ्कामारोहयिष्यामो अनिष्यामश्च ते रिपुम् निरुत्साहस्य दीनस्य शोकपर्याकुलात्मनः सर्वाथा व्यवसीरन्ति व्यसनम् चाधिगच्छति इमे शूरः समर्था च सर्वतो हरियूथपः तत्प्रिया सम् कृतोत्साह प्रवेष्टुम् अपि भावकम् एषां हर्षेण जानामि तर्कश्चापि दृढो मम विक्रमेण समान्यषे सीतामहत्वा यथा रिपम् रावणम् पापकर्माणम् तथा त्वम् कर्तुमर्हसि सेतोरत्र यथा बध्येत् यथा पश्ये मताम् पुरीम् तस्य राक्षस तथा त्वं कुरुराघवे दृष्ट्वा तां ही पुरीम् लङ्काम् त्रिकोटे शिखरे स्थिताम् हतम् च रावणम् युद्धे दर्शनादवधारये बध्वा सागरे चेतुम् घोरे च चे वरुणालये लङ्काम् न चेन्द्रे धी सुरासुरे सेतुबन्धः समुद्रे च यावद् लङ्का समीपतः सर्वं तीर्णम् च मे सैन्यम् जितमित्युपधारय इमे हि समरे वीरः करय कामरूपिणः तदलम् विक्लवाम् बुद्धिम् राजन् सर्वार्थनाशिनीम् पुरुषस्य हि लोकेऽस्मिन् शोकशौर्यापकर्षणः यत्तु कार्यम् मनुष्येण शौटिर्यमवलम्ब्यताम् तदलङ्करणायैव कर्तुर्भवति स परम् अस्मिन् काले महाप्राज्ञ सप्तमा तिष्ठते यथा शूराणाभि मनुष्याणाम् तद्विधानाम् महात्मनम् विनष्टे शोकः सर्वार्थनाशनः तत्सम्बुद्धिमताम् श्रेष्ठ सर्वशास्त्रार्थ कोविदः मद्विधैः सचिवै सार्धम् हरिम् जेतुम् समर्हसि न हि पश्याम्यहम् कञ्चित् त्रिशुलोकेषु राघवे गृहीते धनजोऽयस्ति तिष्ठेद भीमुखोरणे वानरेषु समासक्तम् न ते कार्यम् अचिरा द्रक्षसे सीताम् सीता सागरमक्षयम् तदलम् चोकमालम्ब्य क्रोधमालम्ब्य भूपते निश्चेष्टाक्षत्रिया मन्द सर्वे चण्डस्य बिभ्यति लङ्घनार्थञ्च घोरस्य समुद्रस्य नदीपते, दीपते स्वस्माभिः इहोपेत स्वप्नबुद्धिः विचार्य लङ्घिते तत्र ते सैन्ये जितमित्येव निश्चिनुः सर्वम् तीर्णञ्च मे सैन्यम् जितमित्येव धार्यताम् इमेहि हर्य शूराय समरे कामरूपिणः तानीन् विधमिच्छन्ति शिलापादपवृष्टिभिः कथञ्चित् परिपश्यामि लङ्घितम् वरुणालयम् हचमित्येव तम् मन्ये युद्धे शत्रुः निबर्हण किमुक्त्वा बहुधा चापि सर्वथा विजयी भवन् निमित्तानि च पश्यामि मनो मे सम्प्रविश्यति इत्याचि श्रीमद् रामायणे वाल्मीके अधिकार्य